कृष्णयजुर्वेददैतिरीयसंहितायाम् चतुर्थकाण्डे प्रथमः प्रश्नः प्रारम्भः जानः प्रथमम् राज्यादिः करिष्यतस्य विता प्रसपादिता युग् मनसा वयम् देवस्य स विदः स वेत् स्वर्गे यायिषक्यी इञ्जते मन उदयुञ्ज तेजियो विप्राविप्रस्य गृहतो विपस्थितः विहात्रादेवैनाविदेकयिन्मही दे देवस्य स विदः परिष्ठितिः ये वा ब्रह्म कौर्यन्नमाभिर्विश्लोकायञ्जिपथ्येवदूरा शृण्वन्दि विश्वे अमुदस्य पुत्रा आयेलामानि दिव्यानि कस्थो यस्य प्रयाणमन्वन्यैत्यैर्देवा देवस्य महिमानमत्यतःर्थिवानिभिममे सोरजागम् देवस्य वितामयत्मना देवसविदः प्रसुवयज्ञम् प्रसुवयज्ञपदिम्भगाय दिव्यागम् धर्वः केदपोदन्नः पुनातु वाचस्वधर्वाचमध्यस्वदातिनः देवसवितर्हिक्यम् प्रसुपदेवायुवकोसख्यविदकोसत्राजिरन्धनचिरकोसुवर्जितम् प्रजास्तामकोसवर्धयगायत्रेण रसन्धरम् महद्गायत्रवर्तरि ीरसि पृथिव्या स्वदस्ताग्निम्बुरेश्यमङ्गदा भरत्रैष्टभे रत्वा छन्दसाङ्गेरसिनारिरसि त्वया भय गो सदस्थ अग्निगोशगेमखलितुम्बुरेश्यञ्जागरेणसादलेङ्गरस्वद्धस्ताधाय सिता याच्यो जलज्रमि खात्मीनहाभरानष्टभेन वाच्छन्दसा जने न शनामृतस्य वो न आयुषु विदथेषु कव्या तया देवा सुतमा बभो वरहृतस्य सामन् सरमारबन्दी मृतोक्तम् वा जन्नाद्रवरिष्ठामसम्मतम् श्रीते जन्मपरममन्तरिक्षेनाभिप्रतिभ्यामधियानिः सिञ्जासा गोराधपञ्जिमस्मि न यामे कृषन्वसु पत्न्यम् भरम् तव स्मयुम् योगे योगे तपस्तरम् वाजे वाजे हवामहे सखायैन्द्रमोदेश्यवक्रामन्नजस्ये कृतस्य काशवृत्त्यान्मयो भूरैः अर्वन्तरिक्षमन्वे स्वस्ति गव्यो देवयानि शृण्वन् ोष्णाधीजा दिव्या स्वरस्तादज्ञम् पुरेश्यमङ्गरस्वरच्छे यज्ञम् पुरेश्यमङ्गरस्वरच्छे वाक्यम् पुरेश्यमङ्गरस्वद्भरिष्यामोक्यम् पुरेश्यमङ्गरस्वद्भरामः अन्मग्नरुषसामग्रमख्यलन्महानुप्रथमो जातवेदानसौर्यस्य पुरत्रा अग्निगोधस्य महतिचक्षुषा निजिकेषते आक्रम्यवायुम् पृथिवीमग्निमिच्छात्वम् भोम्या वृत्ताय नाप्रोहे दक्षनामतम् वयम् योस्ते पृष्ठम् पृथिवी रथस्थमात्मान्तरिक्षगोधमुत्रस्ते योनिः इक्षाय चक्षुषा त्वमभिदिष्ठपृतञ्जतः उत्क्राममहते लोपकार्यास्मादास्थानात्र विनोदावायन् एकस्यामसुमतो पृथिव्याज्ञङ्खनिष्यन्दवस्थे स्याः पदक्रमे द्रविणादावाज्यर्वाकस्य लोकगांसुकृतम् पृथिव्याः तदक्षमेप्रतीकमग्सु गोरुणाक उत्तमे अपो देवीरपसृजमधुमतीक्ष्माय प्रजाभ्यः तासागुस्थानादित्यहतामोषधयः सुविक्पलाः विजव्यज्ञम् प्रथन्तिरश्चा वयसा पृथन्तम् यतिष्ठमन्नगो रहसंविधानम् आत्वा जघर्म्यपदसा कृतेना रक्षसा मनसा दद्युषस्व अपर्यश्वे श्रृहयत्नर्ना अज्ञर्नाभिरुषे धनुवाजधर्षानः हरिभाजपदेकविरत्नहव्यान्यक्रमेत्नानि ेवेत्ताम्बन् दावतःयसुजिः देवस्य मादविदः प्रथवेश्ना बाहुभ्याम् गोष्णास्ताभ्याम् पृथिव्याः स्वधस्थेट्यम्बुरेष्यम् जरस्वत्खामि ज्योतिष्मन्दन्वाग्ने सुप्रतीकमध्रेण भानुनादीत्याम् पृथ्व्याम्बुश्यतपरापविष्टम् वर्धमानम् महाजपुष्करन्धिवमात्रया वरिणाप्रतस्व शर्मजस्थोर्मजस्थोद्रेव हुले हुले संवदाथाम् वक्तमज्ञम्बुरेष्यम् सम्बदागूपर्मिता समीचीपरसात्मना अग्न्यमन्तर्भदिष्यन् देत्यष्मन्तमजस्रविदपुरेश्यादिविश्वभराः सर्वात्वाप्रथमो निरमन्थदग्ने पुष्करादद्य सर्व निरमन्थता मोध्मा विश्वस्य माघतः तमत्त्वा द्यङ्गत्रमेधेधर्वणः अत्र हणम् पुरन्दरम् अमत्वाच्चवृषासमेधेदस्य हन्तम् धनञ्जयपूरणेरणे शीतहो तस्व लोके चिगित्वान् साधयानहविषा दृषदने विदानस्वेशी जिवागोहस्वदक्षः सहस्रम्भरश्रिजिह्वा अग्निः गोधीरस्व महागोहोजस्व देभवीतमः ्येत्यसृजप्रशस्तदर्शतम् दरिष्वाहितेऽन्यो अग्रे अह्मो हितोहितेष्वऋषोवनेषुत्तरत्नाददानो दानुषदायम्मादश्वा ददातोत्थानायैन्यष्टम्प्राणथेन तस्मै च देव्यम्षासहशर्मधमासदस्वः आतोज्ञे विश्वसंवेश्ववा नो देव्या कृपा च भासा प्रहतासु शुक्कनिराज्ञेयादिषु षष्ठिभिः ऊर्ध्वभूषणभूतयेधिष्ठा देवो न सहिता ऊर्ध्वमाजस्य सनिताय सन्धिर्माघर्विह्वयामहे सञ्जातोषधीषु शिवभवभीक्ष आशीर्भववाद्यर्वन्नषस्वभज्ञे पुलेशवाहनः शिवभवप्रजाभ्योमानुषेभ्यस्वमङ्गिरः आद्या वा पृथिवी अभिशोषितोमान्तरिक्षम्मा वनस्पतेन ऐतमाजे गणकृदन्नाद्रासभक्वत्वा अरण्यज्ञम् पुरेश्यम्मापाद्यादिशपुरा आसभोवान् गणकृदत्सुग् कर वर्षणार्थे समामग्निम् पुरीश्वमाशद्गोतामहादितः कृषाग्निम् वृषणम् तरन्नपाङ्गर्भगोतमुद्रियम् अग्नहायाहि वेतयहतगो सत्यम् औषधयप्रतिगृह्णीताग्निमेतगो शिवमायन्द्रमभ्यत्र युष्मा यस्य विश्वा अपजेराजयन्निषेदन्ना अपधन्मतिगोहनद ओषधयप्रतिमोदध्वेनम् पुष्पावदेशुविफलाः अयम् मागर्वात्म्यप्रनगोधरः समासद विषा रक्षसामीवाः शर्मनिश्च पट्नेरागौ गावस्य प्रणेतो आपोहिष्ठामयोगवस्थानवोर्धे महेरुणा यजक्षतेस्तस्य भारेतेन तस मातरः तस्मारङ्गामभोहिशिक्षया यजन्मथापोजनयधा जनः त्य पृथिवीम् भोमञ्चत्योद्रम् वैश्वानलम् विभुम् यत्पासकौसजामि प्रजाेवा वैश्वानलाः सकौसजन्तानष्टमेन छन्दसाङ्गिरस्त्वत् अत्रासंहृत्य पृथिवीम् बृहत्यरेणरजस्रयिच्छुक्रेवेश्वराचरे हस्ता श्रीवारीकराददा श्रीवारीसुकर्तासुकरीरासौ वशा साभ्ये महोकान्ददासुहस्तुभ्यामृतिरेया मातापुत्रम् यथावस्थेताग्निभक्तग्रन्थः यज्ञस्य पदे स्त असमस्त्वा कृण्वन्दगा यत्रे न छन्ददाङ्गिरस्वत् पृथिव्यचरत्रास्त्वा कृण्वन् तत्रैष्टभेन छन्ददाङ्गिरस्वन्द्रमस्यादित्यास्त्वा कृण्वन् सुजागते न छन्दताङ्गिरस्वद्यो विश्वे देवा वैश्वानराः कृन्त्वानुष्ठभेन छन्दसाङ्गिरस्वशासि धारयामयि प्रजागो रायस्पोषङ्गोपत्यगो द्वित्यैरास्मास्विति छन्दसाङ्गिरस्वद कृत्वा यथा मयीमुखाम् मन्मही योनिमग्नये ताम् रसवस्त्वाधोपयन्तु गायित्रेण छन्ददाङ्ग रस्वद् रुद्रास्वाधोपयन्दु त्रेष्ठभे न चन्ददाङ्ग रस्वदा नित्या स्वाधोभयन्द्रजागते न छन्ददाङ्ग रस्वद्विश्वे स्वादेवावैष्टोपयन्त्वानुष्ठभे न छन्ददाङ्ग रस्वदेन्द्र स्वाधोभयत्वङ्ग रस्वत्कृष्ण स्वाधोभय त्वङ्ग रस्वद्वरुण स्वाधोभयत्वङ्गे रस्व स्वा देवी विश्वदेव्यावदे देवानां द्वा पत्नी देवीर्विश्वदेव्यावदे पृथिव्या सदस्थेङ्ग्रस्वतोणा स्वा देवीर्विश्वदेव्यावदे पृथिव्यासस्थेङ्ग्रस्वदभिन्द्रदा मुखेना स्वादेवीर्विश्वदेव्यावदे पृथिव्या सदस्थेङ्ग्रस्वच्छभयेन्दो गेवरो प्रयोजनय स्वा देवीर्विश्वदेव्यावदे पृथिव्यासष्ठेङ्ग्रस्व पचन्तो हे मित्रैयामुखाम्बैषामाभेदि एतान्ते परिददाम्यभिद्य अभीमाम् महिनादिवम् मित्रोपभोवसप्रथाश्रवसा पृथिवी मित्रस्य दर्शने तदश्रव देवस्य सा नसिम्नम् वित्रश्रवस्तमम् देवस्वासवितावृतसुपाणि स्वी सुपाहवृतशक्त्या अपद्यमाना पृथिव्या सादिशा वृणा उत्तिष्ठबृहती भवध्वाविष्ठध्रुमा त्वम् अधर्मस्ताच्छुन्दगावित्वेन छन्दसाङ्गि ह्रस्वद्धत्रास्त्वाच्छन्दत्रैष्टभेन छन्दसाङ्गिरस्वदादित्यास्त्वाच्छन्दन्द्वजागतेन छन्दसाङ्गिरस्वद्विश्वे सन्धिव्येन दीधिरोधनेन विश्वाहि प्रतिशपृशव्याः सञ्जयध्यस्वाग्ने प्रचबोधयैनमुच्चतिष्ठमहते सौभदाय आचरिषदवसतादे अग्ने ब्रह्माणस्य शिरः सन् समान्ये कामज्ञे मृदे ब्राह्मणा इमे शिवोऽज्ञे संवरणे भवानः सपत्नहाणोऽभिमादिजित्यस्वजागृह्य प्रयुच्छन् धिधारया रयम्मार्थानिक्रम्बोर्मजिकानिकारिणः शत्रमण्णे सुयममस्तु तुभ्यमपसत्तामर्धदाञ्जयविष्णुतः विश्वाह्यज्ञे दुरिता सहस्रातास्मभ्यको धावीरागो रैन्दा माधृश्य जातवेदानिष्कृतो विराडज्ञे क्षत्रभृत्येदिभिह विश्वाशा प्रपञ्चन्मानुषेभ्यः शिवाभिरृत्यपरिवाहिनो वृधे परस्परे समिदर्बोधयेन कोसकंसिरञ्जत्सुन्दराकोसकंसिशादि को को अर्जयैनम् मते लोकराय विश्वेन अनुमदन्तु देवाः वृत्रभो यादयद्यमस्य परस्परे अभिषस्तेरमञ्ज प्रत्यो हतामश्विनामृत्यमस्माद्येवानामग्ने विषयाशिनीभिः वृद्धयन्दपरस्परि पश्यन्तोध्यवदत्तरम् देवन्दे वृद्रासूर्यमन्मध्यवतीर्थमम्भवञ्जोर्धाशुक्राशोदीगष्यग्ने सोनोःशुरो विश्ववेदेवो देवेषु देवः निमध्वा कृतेन मध्वा नित्यन्नक्षते प्रियराशगुन्दवाज्ञे सुकृस्य पिता विश्वमानः तच्छायमे दिशमधाकृतेन अग्निग्द्रु च ध्वलेष प्रियत्सु सैक्षदस्य महिमानमग्ने स है मन्दासुप्रियतः प्रवेतशालाम् नापद्यमाना ते यो दिव्येन यो न विशासानद्या इमम् यज्ञमवदा देव्या होतारा गोध्वरन्मग्नेर्वित्वामभिगणितम् प्रणुदान्न स्वेष्ट्यम् यतिश्रदेवे बरेतगोधाचरस्वरीकार मही गृणाना अन्नश्चरीपमध्वरम् वरुक्षद्वष्टा सुवीरम् राजस्वशम्मिष्यतनाभिमस्मे मनस्पदेवसु कारणानस्मा देवेषु अग्निर्हव्यकोशमितासोदयादि अग्ने स्वाहादवेदैन्द्राय हव्यम् विश्वे देवासमवत्कदाग्रे भूतस्य जातप्रतिरेकादीर तदा धारपृथिवीन्द्या देवाय हविषाभिदेवा देवा यः निमिषतो महित्यै वरिद्या जाजगतो बभूव ैशे अस्य त्रुपदस्य तिष्ठदः कस्मै देवाय हविषा विधेम या पदापलदायस्य विष्ण उपासते प्रतिशयस्य देवा यस्य छायामृतयस्य मृत्यः कस्मै देवाय हविषा विधेम यस्येमे हिमवन्तोमहित्वायस्य समुद्रगौ हृदया प्रतिशोयस्य बाहो कस्मै देवाय हविषा विधेम कण्ठसीहमराजस्ते अभ्येक्षे ैदेवाय हविषा विधेम ये हन्त्यो रुग्रापृथिवीयेलन्यक्षेरजतोस्मै देवाय हविषा विधेम आहो हयन्महतेर्विश्वमायन्द्रन्दधाना जनयन्तीलग्निम् देवानान्यसुरेगः कस्मै देवाय हविषा विधेम यस्य को महिना पर्यवश्रुद्धक्षन्दधाना जनयन्तीलग्निम् यो देवेश्वति देवये गणासी तस्मै देवाय हरिषा विधेम आकोतिमग्निम् व्रे जग्स्वाहामग्निम् व्रे जग्स्वाहाम् व्रे जग्स्वाहाय स्वाहा विश्वे रायम्बष्णवेरे स्वाग्नित्यलङ्करिष्यतः स्वदेव कृतिविश्वस्तया श्रीमायास्विदया कृतादि तिष्ठन् देवानामिदमस्वहव्यमरिष्टात्ममुनिः इत्ये अस्मिन् यत्रैलामुखान्तवैषामावेदि वेदाम् देवरितदान्यकृत्नाः साण्यः सारस्पुत्राद्भुतः परस्याधिपरागो अभ्यातर यत्राहमस्मितागोह ेत्वन्तरामदा ते तम् मातरस्या मैनामच्च शामातपसाभिशोषितान्तरस्यागो शुक्रचादर्मिभाहि अन्तर्णे रचात्ममुखा हि सदनेश्वे तस्यास्तगो हरसाञ्जातवेदशिवो भव शिवो भो त्वा मह्यमज्ञेतोशीलशिवस्वम् शिवा कृत्वादिशः सर्वास्वाञ्जानि मियासलग्नेयानि कानि च देदारोणि दत्मसि ततस्तदभ्यमिद्घृतम् दद्यषस्वयविष्ठ्या यदद्युबिष्व्रोहधिसत्पदि सर्वम् तदस्तु दे घृतम् दद्युषस्वयविष्ठ्या रात्रिको रात्रिवप्रयामम् हरन्त्वाश्वाये वजष्ठदे घातोऽस्मै कायस्पोषेण समिषामरन्त्वा क्षेमादे प्रतिवेशादिशाम नाभा पृथिव्याः समिधानमग्निघोराय स्पोषाय बृहते हवामहे राजक्षञ्जरत्रेनावे त्वरेराव्याधिलेरवणा सेनाय चतस्करास्तागुस्ते अग्ने अपिष्टाभ्याम् मलिम् नोन्यम् हे तस्करागुमृता नोभ्यागुस्तेनान् भगवस्त्रागुस्सङ्खादसुखादिता ये जनेषु परिप्लवस्तेनादस्त रामेकक्षेष्भयोस्मभ्यमराधीयाद्यस्य नवद्वेषु तम् अस्मसा कुरु सगंसितम् मे ब्रह्म सगोसिदम् वीर्यम् बलम् सगोषितम् क्षत्रम् यष्ट यस्याहमस्मि पुरोहितः देशाम् पावो अतिरमुत्पच्छलम् ब्रह्मणामित्रानुमया विश्वाह अहम् विशानो रुक्म्याव्यो धर्मरुषमाय श्रिये जानः अन्यरमृतापवद्रयोदेश्रेताः विश्वासरूपाणि प्रतिमञ्जते कविप्रासा वेद्भद्रन्दिपदे चतुष्पदेकमक्षत्सवितावरेण्यो न प्रयाणवृषतो विराजति न क्रोषासा समनसा विलोके धापये देशमेकोसमीति यावा क्षामा रुग्मान्दर्विवाजिदेवाग्निन्दारेन्द्रणोदा सुवर्णाशरत्मािरोगायत्रम् चक्षसो महात्मा सामते तनोर्वामदेव्यम् प्रात्रदन्धरे रक्षो यज्ञा यज्ञम् गुच्छम् सन्दागस्यङ्गायधिष्णीयाशोष नाम सुवर्णाशिकरुत्मान्निवम् गच्छसु वः पदा अग्नेय यज्ञमध्वरम् विश्वतः परिभूरति सहिर्देवेषु गच्छति सोमयास्ते मयो भवशुषे ताभिर्ना पिता भव अग्निर्मार्था भव तन्नस्व मया देधामानिर्वरेण्यम्भो देवस्य धीमहि कृमादयव्यजने दे दीनैर्दक्षे प्रभूते पूरुषत्तथा देवेषु च तर्मानुषेषु सत्वम् नात्र चोदयित्रीसोमतानाञ्जनन्दे सुमदीनाम् यज्ञन्दजयसरस्वती आवीरवीन्यायत्रायः सरस्वती वीरवद्गीजन्धाकंसलकंसजोषादरादरशङ्करजयशन्मयकंसल कोषागान्वेतनकोषालक्षत्रर्वतः कोषागाचकंसनोतनः शुक्रन्दे अन्यत् नितन्दे अन्यद्विशोपेऽह नेत्योरिवासी ूषण्रस्तु हे वर्ध्वन्तस्वतमसा महित्मनागम् दस्तुमक्यङ्कृते यमारुताय स्वतमसे मरत्वम् हे सहांसहसा सहम्भ्यः विश्वे देवा विश्वे देवानपृथिवी इमगो सिद्धमद्य विस्पृशम् देवेषु इच्छता वा पृथिवी देव्येन जनेन यातम् महिमामरोधम् अग्निग्रस्तोमेन बोधय समिधामामत्यम् हव्या देवेषु नोदधत् अहव्यवाणमत्यऋषिक्लोदश्च नो हितः इति चतुर्थकाण्डे प्रथमः प्रश्नः समाप्तः